इति तैत्त्रिय आरण्यः चतुर्थप्रश्नप्रारम्भः ओ नमो रोदन्तु ॐ शान्तिः शान्तिः नमो वाचे याचोदिता याचानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्ते नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपदेभ्यो मामां ऋषयो मन्त्रकृतो मन्त्रपतयः परा दुर्माहर्षेन् मन्त्रकृतो मन्त्रपदीं परादां ईश्वदेवीं वाचमुद्यासदुं शिवामृतस्ताञ्जुष्टां देवेभ्यः शर्म मेद्यौ शर्म पृथिवी शर्म स्वमिदम् जगत् शर्मचन्द्रश्च सौर्यश्च शर्म भूतम् वदिष्ये भुवनम् वदिष्ये तेजोवदिश्ये यशोवदिश्ये तपोवदिश्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्माहमिदमुपस्तरणमुपस्तृण उपस्तरणम् मे प्रजायै पशूनाम्भूयादुपस्तरणमहं प्रजायै पशूनाम्भूयासं प्राणापानो मृत्योर्मापातं प्राणापानौ मामाशिष्टं मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधु मधु ेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम्मा देवा अवन्तु शोभादी पितरोऽनुमदन्तो शान्तिः शान्तिः शान्तिः शान्ति युन्दते मन उत युञ्जते विप्रा विप्रस्य बृहतो विपश्चितः विहोत्रादधेवजो नाभिदे कलिदे मही देवस्य स देवस्य त्वा सवितुः प्रसवे अस्या बाहुभ्याम् उष्णो हस्ता आभ्यामाददे अभ्रिवसि नारिवसि अध्वरकृद्देवेभ्यः उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे उपप्रयन्तु मरुतः सुदानवः इन्द्रप्राशोद्भवासुचाः प्रयितुब्रह्मणस्पतिः प्रधेभ्ये तु सूदृताः अक्षावीरन्नम् पङ्किराधसम् देवायज्ञम् नयन्तुनः देवी दावापृथिवे अनुमे मगुम्साथाम् रद्ध्यासमद्य मघस्य शिरः मखायत्वा मघस्य त्वाशीर्ष्णे यत्यग्र आसीः मखस्य शिरः मखायत्वा मघस्य त्वाशीर्ष्णे देवीर्वम्ेरस्य भूतस्य प्रथमजाहृतावलीः रध्यासमद्य मखायत्वा मखस्यत्वाशीर्ष्णे आयुर्धेः प्राणन्धेः अपानन्धेः व्यानन्धेः चक्षुर्धेः श्रोत्रन्धेः मनोधेहि वाचन्धेः आत्मानन्धेः प्रतिष्ठान्धेः मान्धेः महिधेः मधुत्वा मधुराकरोतु मखस्य शिरोसि यज्ञस्य पदेस्थः गत्रेण त्वा छन्दसा करोमि प्रैष्टुभेन त्वा छन्दसा करोमि जागतेन त्वा छन्दसा करोमि मठस्य रास्नासि अदितिस्ते विलम् गृह्णातु माङ् सूर्यस्य हरसाश्राय मखोऽसि कृष्णो अश्वस्य निष्पदसि वरुणस्त्वा धृतव्रत आधूपयतु धर्मणा अर्चिषे एत्वा श्रोचिषे एत्वा ज्योतिषे त्वा तपसेत्त्वा अभीमम् महिनादिवम् नेत्रो बभूव सप्रथाः उतश्रवसा पृथिवीम् नेत्रस्य चर्षणीधृतः श्रवो देवस्य सा नसिम् द्युम्नम् चित्रश्रवस्तमम् सिद्ध्यै त्वा देवस्त्वा स भितोऽद्वपतो सुपाणिः स्वम् गुरिः सुबाहुरुतशक्त्या अपद्यमानः पृथिव्याम् आशादिश आपृण वृत्तिष्ठबृहण्भव ऊर्ध्वस्तिष्ठध्रुवस्त्वम् सूर्यस्य त्वा चक्षुषान् वीक्षे ऋजवेत्त्वा साधवेत्त्वा सुक्षिते त्वा भूत्येत्वा इदमहममुमामुष्या जनम् विशा पशुभिर्ब्रह्म वर्चसेन रागत्रेण त्वा छन्दसाक्षृणद्मि प्रेष्टुभेन त्वा छन्दसाक्षृणद्मि जागतेन त्वा छन्दसाक्षृणद्मि छृणत्ववाक् छृणत्वोक् छृणत्वहविः छन्धिवाचम् छृह्र्जम् ब्रह्मन् प्रवर्गेण प्रचरिष्यामः होतर्घर्ममभिष्णुहि अग्नी द्रौहिणोपरोणाशावधिश्रया प्रतिप्रस्थातर्विहर प्रस्तोतः सामानिगाय यजुर्युक्तगुंसामभिराक्तखन्वाेर्देवैरनुमतम् वरुद्भिः दक्षिणाभिः प्रततम् वारयिष्णुम् स्तुभो वहन्तु सुमनस्यमानम् स न रुचन्धे ह्य हृणीयमानः भोर्भुवः ओमिन्द्रवन्तः प्रचरद ब्रह्मन् प्रचरिष्यामः होदर्घर्ममभिस्पृहीयमायत्वामखायत्वा सूर्यस्य हरसे त्वा प्राणाय स्वाहानाय स्वाहा पानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा मनसे स्वाहा वाचे सरस्वत्यै स्वाहा दक्षाय स्वाहा क्रवे स्वाहा ओजसे स्वाहा बलाय स्वाहा देवस्त्वा सवितामध्वानक्तो पृथिवीन्दवशस्त्रायस्व अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि सम्सेदस्व महागुम् असि शोचस्व देववीतमः विधो ममग्ने अरुषम् यजेध्य सृज प्रशस्तदर्शतम् अञ्जन् त्रिजम् प्रथयन्तो न विप्रावाः वपावन्तन्नाग्निनातपन्तः पितर्नपुत्र उपसिप्रेष्ठः आधर्मो अग्निमृतजन्नसादीर अनाधिष्या पुरस्ताहात् अग्नेराधिपत्ये आयुर्मेदाः पुत्रवतिदक्षिणतः इन्द्रस्याधिपत्ये प्रजाम्मेदाः सुषदा पश्चात् देवस्य स पितुराधिपत्ये प्राणम् मेदाः आश्रुतिरुत्पगतः निरावरुणयोराधिपत्ये श्रोत्रम् मेधाः विधितिर्वरिष्टात् बृहस्पतेराधिपत्ये ब्रह्ममेधाः क्षत्रम् मेधाः तेजो मेधावर्चो मेधाः यशो मेधास्तपो मेधाः मनोमेधाः मनोरस्वासि भूरिपुत्रा विश्वाःभ्यो माष्ट्राभ्यः पाहि सोपसृदा मे भोजामाहि पुंसेः तपोष्वाग्ने अन्तरागम् अमित्रान् तपाशगुंसमररुषः परस्य तपावसो चिकितानो अचित्तान् इते तिष्ठन्ता वजरा अया सह चितस्थपरिचितः स्वाहा मरुद्भिः परिश्रयस्व मा असि रमा असि रिमा अन्तरिक्षस्यान्तर्भिरसि दिवन्तपशस्त्रायः सा आभिर्देर्भिर्यदतो न ऊनम् आप्यायय हरिवो वर्धमानः यदा स्तोतृभ्यो महि गोत्रार्जासि भोयष्ठभाजो अधते स्याम शुक्रन्ते अन्यद्य जतन्ते अन्यद् विशुरूपे भद्राते पूषन् निहरातिरस्तु अर्हन् विधर्षसायका निधन्व अर्हन् निष्कङ्गजतम् विश्वरूपम् अर्हन् निदन्तयसे विश्वमद्भुवम् न वा ओजीयो रुद्रत्वदस्ते राजत्रमसे त्रेष्टुभमसे जागतमसे माधु मधु मधो दशोऽर्ध्वाभाससुमनस्यमानः स नो रुचन्धे व्यभिीयमानः अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गाजत्रेण छन्दसा समारुचितो रोचया इन्द्रस्त्वा रुद्रैर्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसा समारुचितो रोचया वरुणस्तादित्यै पश्चाद्रोचयतु जागते न छन्दसा समारुचितो रोचया निता नस्त्वामारुतो मरुद्भिरुत्तरतो रोचय त्वानुष्टुभे नछन्दसा समारुचितो रोचया बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रोचय दृपान्ते न छन्दसा समारुचितो रोचया रोचितस्त्वम् देवघर्म देवेश्वसि रोचषीयाहम् मनुष्येषु ्राघर्मरुचितस्त्वम् देवेष्वाजुष्मागस्तेजस्वे ब्रह्मवर्चस्यसि रुचितोऽहम् मनुष्येष्वाजुष्मागस्तेजस्वे ब्रह्मवर्चसि भूजासम् ऋगसि रुचम् मयि धेहि मयि ऋग दश पुरस्ताद्रोचसे दश दक्षिणा दशप्रत्ययङ् दशोदङ् दशोऽर्ध्वोभासिसुमनस्य समस्स्राजिषमोर्जन्धेहि बाजीवाजिनेपवस्व रोचितो घर्मो रुचीय अपश्यङ्गोपामनिपद्यमानम् आचपरा च पथिभिश्चरन्तम् ससध्वीची सविशोचेऽर्वसानः आवरीवर्तिभुवनेष्वन्तः अत्र प्रावेः मधुमाध्वेयेभ्याम् मधुमाधूचेभ्याम् अनुवान्दे पवीतये समग्निरग्निनागत सन्देवेन समित्रा सगुंसौर्येण रोचते स्वाहा समग्निस्तपसा गत सन्देवेन समित्रा सगंसौर्येणा रोचष्ट धर्ता दिवो विभासिरजसः पृथिव्या धर्ता गुरोरन्तरिक्षस्य धर्ता धर्ता देवो देवानाम् अमर्त्यस्तपोजाः सुरे त्वा मनसे त्वा दिवे त्वा सूर्या गत्वा ऊर्ध्वमिममध्वरम् गृधि दिवि देवे सहोत्रा गच्छ विश्वासाम्भुवाम् पदे विश्वस्य भुवनस्पदे विश्वस्य मनसस्पदे विश्वस्य वचसस्पदे विश्वस्य तपसस्पदे विश्वस्य ब्रह्मनस्पदे देवशोऽस्त्वम् तपोदाम् वाचमस्मै नियच्छ देवायुवम् गर्भो देवानाम् पितामतीनाम् पतिः प्रजानाम् मतिः कवीनाम् सन्देवो देवेन स मित्राय तिष्ठ सकंसौर्येणारुक्त आयुर्धास्त्वमस्मभ्यम् धर्मवर्चोदा असि यतानोऽसि पिता नो मर्चोगावरिभोगाद्रविणोगाः अन्धरिक्षप्र उरोर्वरीयान् अशीमहि त्वा माहिगुंसेः त्वमग्ने गृहवजर्भिशामसि विश्वासाम् मानुषीणाम् शतम्भोर्भिर्यविष्ठपाह्यगुंहसः समेद्धारगम् शतगुंहिमाः इन्द्राविणगुम्हार्दिवानम् यहैव रातयः सन्तो कष्टीमतीते सपेद सुरेतारेतो दधाना विलम्बिते गतव सन्दृशि माहगुम् राजस्पोषेण वियोषाम् देवस्य त्वासविदुःप्रसवे अश्विना बाहुभ्या ओष्णा हस्ताभ्यामाददे अदित्यैरास्नासि पिणजेः अदितयेः असावेहि असावेहि असावेहि अदित्या सुष्णीषमसि वायुरस्येडः कोषात्वोपापसृजतो अश्विभ्याम् प्रदापय यस्ते स्तनः शशयोजोमजो भोः येन विश्वापुष्यशिवार्याणि यो रत्मधापसुविद्यः सुदत्त्रः धातवेकः पुस्रघर्मगुं शिगुंष पाहि घर्माय बृहस्पतिस्त्वोपसीदतो दानवस्थैरवः विश्वगृतो लोहितेन अश्रिभ्याम् बिन्वस्व सरस्वत्यै पिन्वस्व ओष्णे पिन्वस्व बृहस्पतये बिन्वस्व इन्द्राय पिन्वस्व इन्द्राय पिन्वस्वयत्रोऽसि प्रवेष्टुभोऽसि जागतोऽसि सहोर्जो भागेनोपमेः इन्द्राश्रिना मथुनः सारधस्य धर्मम् पातपसवो निज तावट स्वाहा त्वा सौर्यस्य रश्मये वृष्टिवनये जुहोमि मधुहविरसि सौर्यस्य तपस्तप द्यावापृथिवीभ्याम् त्वापरिगृह्णामि अन्तरिक्षेण त्वोपयच्छामि देवानाम् त्वापि तृणामनुमतो भर्तृपुंसकेजम् हे दो न प्रेहि दिविस्पृङ्माहि पुंसेः अन्धरिक्षस्पृङ्माहिगुंसेः पृथिविस्पृङ्माहि पुंसेः सुवरसि सुवर्मे यच्छ दिवञ्यच्छ दिवो मा पाहि समुद्रायत्वापातायस्वाहा सलिलायत्वापाताजस्वाहा अनाधृष्याय त्वापाताजस्वाहा अप्रतिभृष्यायत्वापाताय स्वाहा अवस्यरे त्वावाता यस्वाहा दुवस्वरे त्वावाता यस्वाहा शिविद्वदे वसुमते स्वाहा सोमायत्वा रुद्रवते स्वाहा वरुणा यत्त्वा स्वाहा बृहस्पतये विश्वदे व्यावते स्वाहा सवित्रे त्वर्भुमते विभुमते प्रभुमते वा जपते स्वाहा यमाय त्वाङ्गिरस्वते विभ्रमते स्वाहा विश्वाशादक्षिणसत् विश्वान्देवानजाडिह विश्वा स्वाहा कृतस्य घर्मस्य मधोः पिबतमश्विना स्वाहाग्निजे जग्निजाय संयजुर्भिः अश्विना घर्मम् पातगम् हार्दिपानम् अहर्दिवाभिरोदिभिः अनुवान्द्या वा पृथिवीमगुम् साताम् स्वाहेन्द्राय स्वाहेन्द्रावट घर्ममपादमश्विनाहार्दिवानम् अहर्दिवाभिरोदिभिः अनुबान्द्या वा पृथिवी अमगुम् साताम् तम् प्राव्यम् यथावट् नमो दिवे नमः पृथिव्यै दिविधा इमम् यज्ञम् यज्ञमिमम् दिविधा आह दिवम् गच्छ अन्तरिक्षम् गच्छ पृथिवीम् गच्छ पञ्चप्रदिशो गच्छ देवान् घर्मपाम् गच्छ पितरान्घर्मपाम् गच्छ इषेऽपीभिः ऊर्जेऽपीभिः ब्रह्मणेऽपिः क्षत्रायपीभिः अद्भ्यः पीपिः ओषधीभ्यः पीभिः वनस्पतिभ्यः सुभोतायपीपिः ब्रह्मवर्चसायपीपिः विलमानायपीपिः पश्यन् चेष्ठ्यायपीपिः विष्यै एत्वा द्युम्ना जत्वा इन्द्रियायत्त्वा भोत्यैत्वा धर्मासि ब्रह्माणि धारय क्षत्राणि धारय निसन्धारय नेत्वा वातः अमुष्यत्वा प्राणे सा गजामि अमुना सहानिरर्थम् गच्छ योऽस्मान्द्वेष्टि यम् च वयम् विष्मः कूष्णे शरसे स्वाहा द्रावद्भ्यः स्वाहा प्रतिरेभ्यः स्वाहा द्यावापशिवेभ्यः अहर्ज्योतिःकेतुना जुषताम् सुज्योतिर्ज्योतिषा विस्वाहा रात्रिर्ज्योतिःकेतुना जिषताम् सु ज्योतिर्ज्योतिषा विस्वाहा अपि परो माह्नो रात्रिजैमा पाहि येषा ते अग्ने समित प्रजा समिध्यस्व आजुर्वेदाः व्रक्षसामाञ्जेः अपि परो मा रात्रिजाह्नो मा पाहि यशा ते अग्ने सजा समेस्व आयुर्मे वर्थसाजी अग्निर्ज्योतिर्ज्योतिरिस्वाहा सौर्जोज्योतिर्ज्योतिस्वाहां हम मधुहत में नो सीमासेशावते देंवर्म मधुमतो वाजवत मत पितुमद अंदिस्वतस्वधाशीमि स्वाहा सूर्य रश्मिभ्य स्वाहा नक्षत्रे घे धीर यात्रे छंदसी या ब्राह्मणे हिधाने तावयजे स्वाहा धर्मजातेन्द्ररिक्षेषु गात्रैष्टुभे छन्दसि या राजन्ये याग्नेध्रे तान्तजेतेनावयजे स्वाहा धर्मजाते पृथिव्यादुंशुग या जागते छन्दसि या वैश्ये या सदसि तान्तजेतेनावयजे स्वाहा अनुनाद्यानुमतिः अन्विदनुमते त्वम् दिवस्त्वापरस्पाया आह अन्तरिक्षस्य तनुवः पाहि पृथिव्यास्त्वाधर्मणा वयमनुक्रामामसुविता जनव्यसे ब्रह्मणस्त्वापरस्पाया आह क्षत्रस्य तनुवः पाहि विशस्त्वाधर्मणा वयमनुक्रामामसुभिताजनव्यसे प्राणस्य त्वापरस्पायैः चक्षुषस्तनुवः पाहि भजमनुक्रामामसु विकाय नव्यसे वल्गुरसि संयुधायाः शिशुर्जनधायाः शाञ्चवक्षि परिचवक्षे चतुःस्रक्तिर्नाभिरृतस्य सदो विश्वायुः शर्म सप्रथाः अपद्वेषो अपह्वरः अन्यद्रतस्य षष्ठिम धर्मैतत्तेन्न मे तत्पुरुषम् तेन वर्धस्व चाचप्यायस्व वर्धिषीमहि च भजम् आचक्यासि शीमहि रन्तिर्नामासि दिव्योगन्धर्वः तस्य ते पद्वध्वविर्धानम् अग्निरध्यक्षाः रुद्रोऽधिपतिः स महमायुषा सम्प्राणेन सम्मर्चसा सम्पयसा सङ्गौपत्येन सघ्राजस्तोषेण यसौ योऽस्मान्द्वेषि यम् च वयम् विष्मः अचिक्रददृशा हरिः महान्मित्रो न दर्शतः स पुंसोऽर्गेण रोचते चिदसि समुद्रयोनिः इन्दुर्दक्षस्येन ऋतावा हिरण्यपक्षस्य गुणोभुरण्यो महान् ध्रुव नमस्ते अस्तु मामाहिगुंसेः विश्वापसु पुंसोमगन्धर्वम् आपोददृशुषीः तदृतेनाव्यायन् तदन्वपैयेत इन्द्रोरारहाण आसाम् परिशोर्यस्य परिधेगुम् रपश्यत् विश्वावसुरभितन्नो गृणात् दिव्यो गन्धर्वो न च सोऽभिमानः यद्वाघा सत्यमुरयन्नद्म सस्निमविन्दच्चरणे नदीना आपावृणो दुरो अश्मव्रजानाम् प्रासाम् गन्धर्वो अमृतानिवोचत् इन्द्रो दक्षम् परिजानादहीनम् एतत्त्वम् देवधर्मदेवो देवानुपागाः देवा देवा यदाहम् मनुष्यो मनुष्यान् सोमपीठानुमेहि सह प्रजया सह राजस्पोषेण स्मेत्रा न आपरोषधयः सन्त सुर्मित्रास्तस्मै भूयासुः योऽस्मान्वेष्टि यम् च भजम् विष्मः उद्वयम् तमसस्परि उदुत्यञ्चित्रम् इममोषत्यमस्मभ्यगुंसनिम् गायत्रन्न बीजागुंसम् अग्ने देवेषु प्रवोचः महीनाम् देवत्रा ज्योदर्भा असि जिनन्त्वावाजिनो वनयामः ओर्ध्वम् मनःसुवर्गम् अस्कान्द्योः पृथिवीम् अस्कानृषभोजुवादाः स्कन्नेमाविश्वाभुवना स्कन्नो यज्ञः प्रजनयतो अस्तानजनि प्राजनि आस्कन्नाज्जायते वृषाः स्कन्नात् प्रजनिषेमहि या तान्त एतेनावयजे स्वाहा या दक्षिणतः या पश्चात् योत्तरतः योपरिष्टाद्विद्युदापतत् तान्त एतेनावयजे स्वाहा प्राणाय स्वाहा व्यानायस्वाहानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय मनसे स्वाहा वाचे सरस्वत्ये स्वाहा कूष्णे स्वाहा पूष्णे सरसे स्वाहा उष्णे प्रपथ्याय स्वाहा पोष्णे नरन्धिषाय स्वाहाष्णे घृणये स्वाहा पोष्णे नरुणाय स्वाहा उष्णे साकेताय स्वाहा उजस्य सुष्मानुर्णार्प्यभिभर्ति भारम् पृथिवीन भूमा प्रशुक्रै तु देवी मनीषा अस्मत्सुतष्टो रसोऽनपाधी अर्चन्त एके महि सामन्वत तेन सौर्यमधारयन् तेन सौर्यमरोचयन् धर्मश्रिस्तदयमग्निः पुरीषमसि सम्प्रियम् प्रजया पशुभिर्भुवद् प्रजापतिस्त्वासादयतो तया देवतयाङ्गिरस्वध्रुवासीद यास्ते जो या अग्न आर्द्रयोग नोया कुलायने अग्न इंद्रोजा उनाभय या तुबोर्जो नाम तस्मुयी संविधान प्रजाने दीद प्रजापति तजा देंतयाध्रुवासी अग्निशि वैश्वा नरो संवत्सरोऽसि परिवत्सरोसि यदावत्सरोऽसि यद्वत्सरोसि यद्वत्सरोऽसि वत्सरोऽसि तस्य ते वसन्तः शिरः ग्रीष्मो दक्षिणः पक्षः वर्षाः पुच्छन् सरदुत्तरः पक्षः हे मन्तो मध्यम् पूर्वपक्षाश्चितयः अपरपक्षाः पुरीषम् तस्य ते मासाश्चार्धमासाश्च कल्पन्ताम् ऋतवस्ते कल्पन्ताम् संवत्सरस्ते कल्पताम् अहोरात्राणि ते कल्पन्ताम् येरि प्रेरिवीति समित्युदिति प्रजापतिस्त्वासादयतो तया देवतयाङ्गिल स्वध्रुवसीद भोर्ध्वस्सुवः धो ओर्ध्व ऊष्ण ऊतये विधुण्डद्रानदुम् समने बहूना युवानगुम् सन्तम् पलितो जगार देवस्य पश्च का व्यमहित्वाद्यामार स ह्यः समान यदृते चिदभिसृषः पुरा कर्तृभ्य आदृतः निष्कर्ता विखृतं पुनः पुनरोर्जा सहरय्या मानो मा नः परमधसम्मारजोनैः माश्वस्मागस्तमस्यन्तराधाः मा रुद्रिया सो अभिगुर्बृधानः मा नः क्रतुभिहीणितेभिरस्मान् दिषा परादाः मा नो रुद्रो निरृतिर्मानो अस्ताः मा द्या वा पृथिवीः निषाताम् उपनो मित्रावरुणा अन्वादेध्याच्छामिहनः सखाया आदित्यानाम् प्रसिद्धिर्हेतिः उग्राशतापाष्ठाघविषा परिणो वृणत्व इमम् मे वर्णदत्वा यामि त्वन्नो अग्ने सत्त्वन्नो अग्ने त्वमग्ने अजासि उद्वयम् मयित्यदिन्द्रियम् महत् मयि रक्षो मयि क्रदुः मयिधायुसुवीर्यम् त्रिषु घर्मो विभातु मे आगोत्यामनसासह गिराजाज्ज्योतिषासह यज्ञेन पयसासह ब्रह्मणा तेजसा सह क्षत्रेण यशसासह सत्येन तस्य दोहमशीमहि तस्य सम्नमशीमहि तस्य भक्षमशीमहि तस्य द इन्द्रेण पीतस्य मधुमतः उपहोतस्योपहूतो भक्षयामि यास्ते अग्ने घोरास्तनुवः क्षुच्चतृष्णा च अस्मृक्चानाहुतिश्च अशनया च पिपासा च सेतिश्चा मतिश्च एतास्ते अग्ने घोरास्तनुवः ताभिरमम् गच्छस्मान्वेष्टि यञ्च वजम् विष्मः स्मिक्तस्नेहितिष्टस्नेहितिश्च पुष्णा च शेता च उग्रा च भीमा च सदाम् सेजरनिरा एतास्ते अग्नेघोरास्तनुवः ताभिरमम् गच्छ य अस्मान् वेष्टे यम् च भजम् लष्मः ध्वनिश्च ध्वान्तश्च ध्वनश्च ध्वनजज्ञिश्च निलिम्बश्च विलिम्बश्च विक्षिपः वग्रश्च ध्वनिश्च ध्वान्तश्च ध्वनश्च ध्वनजग्निश्च सहस्रत्वागिश्च सहमानश्च सहस्वागिश्च सहीयागिश्च एत्यप्रेत्यविक्षिपः अहोराप्रेत्वदीरयताम् अर्धमासास्त्वदी इञ्जयन्तु मासास्ताश्रपयन्तु ऋतवस्त्वापचन्तु संवत्सरस्त्वाहन्त्वसौ खर्जहि छिन्धि भिन्धि हन्धिकट इति वाचः क्रूराणि विजा इन्द्रविचरन् स्वाशयस्व स्वपन्तमिन्द्रपशुमन्तमिच्छा वज्रेणामुम्बोधय दुर्विदत्रम् स्वपदोऽस्य प्रहरभोजनेभ्यः अग्ने अग्निनासंवदस्व मृत्यो मृत्युनासंवदस्व नमस्ते अस्तु भगवः सकृत्ते अग्ने नमः द्विस्ते नमः त्रिस्ते नमः चतुस्ते नमः पञ्चकृत्वस्ते नमः दशकृत्वस्ते नमः शतकृत्वस्ते नमः आसहस्रकृत्वस्ते नमः अपरिमितकृत्वस्ते नमः नमस्ते अस्तु मामाहिपुंसीः असर्मुखोरुधिरेणाव्यक्तः यमस्य दूतश्वपाद्विधावसि गृध्रस्वपर्णः गुणपनिषेवसे यमस्य च दःप्रहितो भवस्य चो भयोः यदेतद्वृकसो भूत्वा वाग्वे एवभिराजसि द्विषन्तम् मेऽभिराज तम् मृत्यो मृत्यवेन सहार्त्यार्तिमार्च्छद् यदीषितो यदि वा स्वकामी भयेडक वदति वा च मेताम् तामिन्द्राग्नी ब्रह्मणा संविधानौ शिवामस्मभ्यम् दीर्घमुख्युरुहणो मा स्म दक्षिणतो वदः यदि दक्षिणतोपदा द्विषन्तम् एव बाधासै इत्था दुलोक आपप्लत् शिरण्याक्षो अयोमुखः रक्षसान्दोत आगतः पमितो नाशयाग्ने यदेतद्भूतान्यम् वाविश्य दैवीम् वाचम् वदसि द्विषतो नः परापद र्त्यार्तिमार्झन्तो अग्निनाग्निः सम्वदता प्रसार्यसख्यौ पसि सव्यमक्षिणिपेऽपि च मेहकस्य च नामवत् अत्रिणात्वा कृमेहन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेणा गुम् राजा अप्यैषा गपतिर्हतः अथो माताथो पिता अथो अस्फूरा अथो क्षुद्राः अथो कृष्णा अथोश्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहराबद्य शिरस्य हरिष यथा तत्सत्यम् यदमुयमस्य जम्भयोः आदधामि तथा हिरल् खण्ठ्रसि ब्रह्मणा त्वा शपामि ब्रह्मणस्वा शपथे न शि घोरे भगूणा चक्षुषा प्रेक्षे रौद्रेण्वा मन साध्याया अस्वाधारजा बिध्यामे अधरो म्यवासौ उत् दशिजा बि तले जे तल उत्तुद गिरीगम प्रवेशज मरीचेपसन्द यावदितः पुरस्तादुदयाति सौर्यः तावधितोऽनाशया योऽस्मा यम् च भजम् लष्मः भोर्भुवस्व भो भोर्भुवःसु भो भोर्भुवस्वः भुवोद्धायि भुवोद्धाय भुवद्धाय नम् नाय नृम् नन् नम् नाय नृम्णम् नम्णाय निधाय्य वायि निधाय्य वायि निधाय वायि ये अस्मे अस्मे सुवर्णच्योतिरेः दशमे समित् तामग्निः समिन्धे साग्निगम् समिन्धे तामहगम् समिन्धे समिंधे ता मा समिद्धा आयुषा तेजसा वर्चसा सृजा यशसा ब्रह्मवर्चसेन अन्नाद्येन समिन्तागुस्वाहा अन्तरिक्षगुम् समित् ताम् वाजुः समिन्धे सा वाजुगुम् समिन्धे तामहगुम् समिन्धे सा मह समिद्धा आयुषा तेजसा वर्चसा श्रुया यशसा ब्रह्मवर्चसेन अन्नाद्येन समिन्तागुस्वाहा योः समित् तामादित्यः समिन्धे साधित्यगम् समिन्धे तामहकम् समिन्धे सा ता मा समिद्धा आयुषा तेजसा वर्चसा श्रिजा यशसा ब्रह्मवर्चसेन अन्नाद्येन समिन्तागः स्वाहा प्राजापत्या मे समिदसि सपत् नक्षयणि भ्राजोजहा मे तच्छके जन्दन्मेराध्यताम् बाजो व्रतपत आदित्यव्रतपते व्रतानाम् व्रतपते व्रतम् चरिष्यामि तच्छके जन्दन्मेराध्यताम् ययोः समित् तामादित्यः समिन्धे सादित्यगम् समिन्धे तामहगम् समिन्धे सा मा समिद्धा आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेन अन्नाद्येन समिन्तागस्वाहा अन्तरिक्षगम् समित् ताम् वाजुः समिन्धे सा वाजुगुम् समिन्धे तामहगम् समिन्धे सा मा समिद्धा आयुषा तेजसा वर्चसा श्रिया दर्शसा ब्रह्म वर्चसेन अन्नाद्येन समिन्धे महघुम् समिन्धे सा मा समिद्धा आयुषा ते च सा वृत्यसा श्रिया यशसा ब्रह्मवर्चसेन अन्दाद्येन समिन्ता स्वाहा राजापत्या मे समितसि सपत्नक्षजे भ्रातृर्व्यहा मे शिस्वाहा आदित्यव्रतपते व्रतमचारिषम् दशकन्तन्मे राधि वायो व्रतपतेऽग्ने व्रतपते व्रतानाम् व्रतपदे व्रतमचारिषम् रदशकन्दन्मे राधि षण्णावादः पवताम् मा चरिश्वासन्नस्तपदसोऽर्जः महानिशम्भवन्तु नः शकम् रात्रिः प्रतिधीयताम् शंषा माते व्यामसन्दृशि इडादेवास्तसि वास्तुमद्वास्तु मन्दो भोजास्म मास्तो स्मश्च वास्तुस्व भोगाद्योऽस्मान्वेष्टयम् च वयम् विष्मः प्रतिष्ठासि प्रतिष्ठावन्तो भोजास्ममाप्रतिष्ठायाश्चिस्म च प्रतिष्ठस्व भोजाद्योऽस्मान्वेष्टयम् च वयम् विष्मः वाहि वाहि आवात वाहि भेषजम् विवात वाहि यद्रपः त्वगम् हि विश्वभेषजो देवानान्दूत ईयसे द्वादिनो वातो वात आसिन्धोरापरावतः लक्षम्येऽरन्य आवातुपरान्यो वाचयद्रपः यदो वातते गृहे मृदस्य निधिर्हितः ततो न देहि जीवसे ततो न देहि पदा नाम आवहवात आवातु आवा भेषतम्भोर्मयो भोर्नो हृदये प्रण आयोगुम् शितारिषत् इन्द्रस्य गृहासि तन्त्वा प्रपद्ये स गुः भोः प्रपद्ये भुवः प्रपद्ये सुभः प्रपद्ये भोर्भुवः सुभः प्रपद्ये वायुम् प्रपद्येनार्ताम् देवताम् प्रपद्ये श्मानमाखनम् प्रपद्ये प्रजापतेर्ब्रह्म प्रजा कोशम् ब्रह्म प्रपद्ये अन्तरिक्षम् कुर्वन्तरम् प्रपधा बृहदग्नजः पर्वताश्च जापात स्वस्त्याः प्राणापानो मृत्योत्मापातम् प्राणापानो मामाहाशिष्टम् मयि मेधाम् मयि प्रजाम् दधातु मयि मेधाम् मयि प्रजाम् दधातु मयि मेधाम् मयि प्रजाम् मयि सौर्योऽभ्याजोदधातु युभिरक्तुभिः भगेभिः तन्नो मित्रो वरुणो मामहन्तापदिति सिन्धुः पृथिवी उतद्योः कया नश्चित्र आभवदूती सदा वृतः सखा कस्ता सत्यो मदानाम् मगुम्भिष्ठावत्सदन्धसः दृढाजिगारुजेव स अभीषणः सखी नाम वयः सुपर्णा उपसे दरिन्द्रम् प्रियमेधार्षजनाधमानाः अबध्वान्तमो ओर्महि बोर्धिचक्षरुममुग्ध्यस्मान्विधये बध्वान् शन्नो देवेरभिष्टय आपो भवन्तु पीतजे शय्यारभिःस्रवन्तु नः ईशा नावाज्ञानान् क्षयन्ते स्कर्षणीनाम् सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भोजासुर्यो अस्मान्वेष्टिजम् च वयम् विष्मः आपोऽहिष्ठामयो भुवस्तान ऊर्जे दधातना महेरणाय चक्षसे यो वः शिवतमो रसस्तस्य पृथिवी शान्ता साग्निना शान्ता सा मे शान्ताशुचकम् शमयत अन्तरिक्षकम् शान्तम् तद्वाजुना शान्तम् तन्मे शान्तकम् शुचकम् शमयत योः सान्ता साधित्येन शान्ता सा मे शान्ताशुचकम् शमयतु पृथिवेशान्तिरन्तरिक्ष पुंशान्तिर्दयोः शान्तिर्दिशान्तिरवान्तरदिशान्तिरग्निः ेव शान्तिः शान्ति कर्मे अस्तु शान्तिः तया हगुम् शान्त्या सर्वशान्त्या मह्यन् विपदे चतुष्पदे च शान्तिम् करो भि अस्तु शान्तिः ये हस्रेश्चक्रेश्च धृतिश्च तपमेधा प्रतिष्ठा श्रद्धा सत्यम् धर्मश्चैतानि मोत्तिष्ठन्त मनोत्तिष्ठन्त मामागश्रेश्चक्रेश्च धृतिश्चतपमेधा प्रतिष्ठा श्रद्धा सत्यम् धर्मश्चैतानि मामाहासिषुः स्वायुषो दोषधे दागुम् रसेनोत्पर्जन्यस्य सुष्मेणागस्थामृकागुम् अन तच्चक्षुर्देवहितम् पुरस्ताच्छक्रमुच्चरत् पश्येम शरदः शतम् जीवेम शरदः शतम् नन्दाम शरदः शतम् मादाम शरदः शतम् भवाम शरदः शतकम् शृणवाम शरदः शतम् बभ्रवाम शरदः शतमजीतास्याम शरदः शतम् चोक्तसोऽम् धृशे युदगान्मह कौर्णवाद्विभ्राजमानः शिरस्य मध्या समावृषभागा हिताक्षसौर्यपि ब्रह्मणश्चोदन्यसि ब्रह्मण आणीष्ठ ब्रह्मण आवपनमसि धारुतेऽम् पृथिवी ब्रह्मणा मही धारुतमे महदन्तरिक्षम् दिबन्दाधार पृथिवी कंसदेवाव्यदहम् वेददहम् धारयाणि मामद्वेदोऽधिविस्रसत् मेधावनीषे माविशदाकम् समेचेभूतस्य भव्यस्यावरुध्वे सर्वमायुरजाणि सर्वमायुरजाणि आभिर्येऽर्भिर्यगतो न ऊनमाप्याजलहरिवो वर्धमानः यदास्तो दृभ्यो महि गोत्रा रुजासि भोजिष्ठभाजो अथ ते स्याम ब्रह्म प्रावादिष्मकन्नो माहासीत ओम् शान्तिः शान्तिः शान्तिः नमो नु ॐ शान्तिः शान्तिःशान्तिः इति तैत्रिय आरण्यः चतुर्थप्रश्नः समाप्तः